उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेश्मनि अस्त्रयोगम् समासाद्य स्ववीर्यान्मानुषाद्भुतम् दिव्यान्यस्त्राणि चाप्तानि देवरूपेण भास्वत यम् मन्ये द्वादशम् रुद्रमादित्यानाम् त्रयोदशम् वसूनाम् नवमम् मन्ये तथा यस्य बाहूसमौ दीर्घौ ज्याघातकठिनत्वचौ दक्षिणे चैव सव्ये गवामि ववहः हिमवानिव शैलानाम् समुद्रः सरितामिव त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् मृगाणामिव शार्दूलो गरुडप्पततामिव वरः सन्नह्यमानानाम् सोऽर्जुनः किं करिष्यति अर्जुन उवाच प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते ज्याघातौ हि महान्तौ मे संवर्तुम् नृपदुष्करौ बाहू किनकृताविमौ कर्णयोप्रतिमुच्याहम् कुण्डले ज्वलनप्रभे पिनद्दकम्ब पाणिभ्याम् तृतीयां प्रकृतिं गतः वेणीकृतशिराजन्नाम्ना चैव बृहन्नला पठन्नाख्यायिकाश्चैवास्त्रीभावेन पुनः पुनः क्रमयिष्येमहीपालमन्यांश्चान्तः पुरे जनान् गीतम् नृत्यम् विचित्रम् च वादित्रम् विविधम् तथा शिक्षयिष्याम्यहं राजन् विराटस्य पुरस्त्रियः प्रजानां सबुधाचारम् बहु कर्म छादय्या कौंतेय मात्मात्मना युधिषिस्त वैरोप्या पिचारिका उषितास्मी वक्ष्यामी पृष्ठो राजा च पांडव एक विधि छंद विहरीष्या राजेन् विराटभवने सुखं